विराट उवाच ददामि ते अहन्त वरान्महानसे तथा च कुर्या कुशलम् प्रभाषसे नचैव मन्ने मन्ये तव कर्म यत्समम् समुद्रनेमिम् पृथिवीम् तथा हि कामो भवतस्तथा कृतम् महानसे त्वम् भव मे पुरस्कृतः नराश्च ये समाहिता पुरा भवाञ्च तेषामधिपो मया कृतः वैशम्बायन उवाच तथा स भीमो विहितो भी महानसे विराटराज्ञोदयितो भवदृढम् उवास राज्ये न च तम् तत्रा न चराश्च